महास्वनैर्दुन्दुभिनादितैश्च बभूव तत्सङ्कुलमन्तरिक्षम् विमानसम्बाधमभूत्समन्तात् सवेणुवीणापणवानुनादम् ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं कृतविक्रमाश्च सकर्णदुर्योधनशाल्वशल्य द्रौणाय निक्राथ सुनीथ वक्राः कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा विदेहराजो यवनाधिपश्च अन्ये च नानानृपपुत्रपौत्रा राष्ट्राधिपङ्कजपत्रनेत्राः किरीटहाराङ्गदचक्रवालैर्विभूषिताङ्गा पृथु बाहुवस्ते अनुक्रमं विक्रमसत्त्वयुक्ता बलेन वीर्येण च नर्धमानाः तत्कार्मुकं संहननोपपन्नं सद्यं न शेकुर्मनसापि कर्तुं ते विक्रमन्तः स्फुरता दृढेन विक्षिप्य धनुषा नरेन्द्राः विचेष्टमाना धरणी तलस्था यथा बलम् शैक्ष्य गुणक्रमाश्च गतौ च सहस्रस्तकिरीटहारा विनिश्वसन्तः शमयाम्बभूवुः हा हा कृतम् तद्धनुषा दृढेन विस्रस्त हाराङ्गदचक्रवालम् कृष्णानिमित्तम् विनिवृत्तकामम् राज्ञाम् तदा मण्डलमार्तमासीत्